एकदन्तं चतुर्हस्तं पाशमं कुशधारिणम् रथं च वरदं हस्तये बिभ्राणं सखध्वजं रक्तं लम्बोदरं शिल्पकर्णकं रक्तवाससम् रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पै सुपूजितं भक्तानुकम्पिनं देवं जगत्कारणमर्जुतम् आविर्भूतं च सिष्ट्यादौ प्रकृते पुरुषत्परम् एवं ध्यायति यो नित्यम् योगी योगिनां वर